अथ वैशंपायन वैशम्पायन उवाच विराटनगरम् रम्यम् गच्छमानो युधिष्ठिरः अस्तु वन्मनसा देवीम् दुर्गाम् त्रिभुवनेश्वरीम् यशोदा गर्भसम्भूताम् नारायणवरप्रियाम् नन्दगोपकुले जाताम् मङ्गल्याम् कुलवर्धिनीम् कंसविद्रावणकरीम् मसुराणाम् क्षयङ्करीम् शिलातटविनक्षिप्तामाकाशम् वासुदेवस्य भगिनीम् दिव्यमाल्यविभूषिताम् दिव्याम् बरधराम् खड्गखेटकधारिणीम् भारावतरणे पुण्ये ये स्मरन्ति सदा शिवां तान्वैतारयसे पापात् पङ्के गामिव दुर्बलां स्तोतुं प्रचक्रमे भूयो विविधैः स्तोत्रसम्भवैः आमन्त्र्यदर्शनाकाङ्क्षी राजादेवीं सहानुजः नमोऽस्तु वरदे कृष्णे कुमारिब्रह्मचारिणि बालार्कसदृशाकारे पूर्णचन्द्रनिभानने चतुर्भुजे चतुर्वक्त्रे पीनश्रोणिपयोधरे मयूरपिच्छवलये केयूराङ्गदधारिणि भासि देवी यथा पद्मानारायणपरिग्रहः स्वमं ब्रह्मचर्य चा विशदम् गगनेश्वरी साम कृष्ण संगकर्षण सामनना बिभ्रती विपुल बाहू शक्रध्वज सुछ्रय पात्री चंकजी घंटी स्त्री विशुद्धा चया